मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं तर्टिवन् ययादिचरितं या श्रीगणेशाय नमः मुद्गल उवाच नहुषस्याभवन्पुत्राः पञ्चदेवसमाधिया यभ्यादिश्च ययादिश्च या तथा संव्याधिरायधिः पञ्चमस् शाश्वको नामययादिर्भूमिपो भवत माहात्म्यं तस्य मुख्यं ते कथयामि प्रजापदे देवयानी मुशनसः सतां भार्यामवापः वृषपर्वसुधां चैव शर्मिष्ठां राजसत्तमः यदुं चतुर्वसं चैव देवयानी व्यजीजनत द्रुह्यं तद्वदनुं पूरुं शर्मिष्ठां वार्षपर्वणि सोभ्य षिञ्चदधिक्रम्य ज्येष्ठान् पुत्रान् महामतिः पूर्वं कनिष्ठमेवं च पिदुर्वाक्यपरायणं दक्ष उवाच किमर्थं तेन भूबेन विपरीतं कृतं प्रभो तत्सर्वं वद योगीन्द्रसादरेण शृणोम्यहम् मुद्गल उवाच वृषपर्वा प्रजानाथ दैत्यानामधिपस्मृदः तस्य पुत्री महाबागा शर्मिष्ठा मानिता भवद तत्र शुक्रस्य पुत्री या देवयानी प्रकीर्तिता सापि पित्रा स्ववात्सल्या स्थापिता लालिता भृशं सखीभिरेकदा बाला समृदा शर्मिष्टवाडिकायां सा हर्षयुक्ता जगामः तथा तत्र क्रीडार्थं सा समागता तत्र नानाविधां क्रीडां चक्रीरे कन्यका प्रभो ततस्थाश्रमसंयुक्ता जग्मुस्नानार्थमादराद तीरे क्षिप्त्वा स्ववस्त्राणि चिक्रीडोर्जलमध्यगाह ततः सखिभिर्युक्ता सा शर्मिष्ठा निःसृता पुरः तया वस्त्रं देवयान्या धृतं किल निःसृता देवयानी वै दृष्ट्वा कर्मजुगुप्सितं राजपुत्रीमुवाच भर्त्स यन्ती ब्राह्मणस्य महादुष्टे पुत्र्याः कं धृतानि वै वस्त्राणि मे यथा पाकस्पर्शेन च सुनीकले द्वारपालो मतश्शास्त्रे ब्राह्मणानां विशेषतः राजन्यस्तस्य पुत्रीत्वं न योग्यासि कदाचन एवं नानाविधैर्वाक्यैर्देवयानी च दां प्रभो वत्सयामाससो वाच कुपितां पुनर्वचः शर्मिष्ठो वाच किमात्मानं च दुष्टे त्वं कथ्यसे मम सन्निधौ राजप्रसादसंसर्गाद्ब्राह्मणामानिता बभूः अस्मदीयप्रसादेन वस्त्रान्नाधिगमादराद भुक्त्वा मास्पर्शसे तथा एवं नानाविधैर्वाक्यायित्सां निर्भर्ष्य प्रजापते सखीभिर्देवयानीं सा कूपे शिक्षेप चासुरी तदसा स्वगृहे क्रुद्धा प्रययौ दुःखिता भृशं देवयानी तथा कूपे संस्थिता जलवर्जिते दैवयोगेन तत्र सौ ययाति स जगामः एकाकी मृगया सकृतकूपस्तां तां ददर्शः ततोऽधिकरुणायुक्तो हस्तं दत्त्वा स्वदक्षिणं देवयानीं दधारा सौतया हस्तो धृतस्तथा बहिर्निष्कास्य राजा सो भवद्गन्धुं समुद्यतः ततस्तं देवयानी सोवाच हर्षसमन्विता देवयान्युवाच प्राणेस्त्वया मे ग्रहणं कृतं कोऽसि त्वं वद मां सर्वं वृत्तान्तं ते यथायधं तामुवाजमहिपालशृणुत्वं वरवर्णिनि ययादिं विद्धि मां देविनाहुशं क्षत्रवंशजं मृगयासक्तभावेन प्राप्तं ते दर्शनं महद गच्छ त्वं स्वगृहे बाले गमिष्यामि स्वमालयं प्रजानाथं देवयानी प्रहर्षिता काव्यपुत्रीं च मां विद्धि भवस्त्वं मे पदिप्रभो। हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया त्वधृतेन वृणोम्यन्यमदस्त्वं मे पतिर्भव तस्यास्तद्वचनं श्रुत्वा ययादिस्तामुवाचः काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः तत सोवाच तं महत ब्राह्मणो मेन भर्त्रा च भविता क च शापतः अतस्वं भयहीनः सन्वृणु मां राजसत्तम काव्यं सम्बोधयित्वाकं पत्नीदे प्रभवामि च तथेदि नृपवर्योस्सौ तां जगाद तधा ययौ नगरं स महाभाग सा भवद तत्रागदं नरं कञ्चित्तमुवाच वद प्रभुं पुत्री देवयानी महामरे ततस्तेन मुनीन्द्रोऽस्सौ बोधितशृणु मे वचः वने ते देवयानीसा पुत्रीवत्सलसंस्थिता शुक्रस्तां प्रययौ शीघ्रं तमुवाच सुविह्वला रुदधि देवयानीसा वृत्तान्तं सर्वमञ्जसा तं श्रुत्वा कुपितकाव्यस्तत्वा दैत्यं स निर्ययौ वनवासार्थमानन्दादूहयन् वृत्तिमुल्बणाम् तदो दैत्याधिपश्रुत्वा वृत्तान्तं विह्वलो भृशं तं ययौ धावमानः स प्रणनाम महामुनिम् उवाचभक्तिसंयुक्तं वचनं दैत्यनायकः त्वदाधारमिदं राज्यं देहोऽयं मे तथा मुने मुनिसत्तम मां त्यक्त्वा त्वमिच्छसि राज्यादिकं परित्यज्य याम्यकं ते प्रसन्निधौ तस्य तद्वचनं श्रुत्वा काव्यपुत्रीमुवाचः चल त्वं राजकन्याया अपराधं क्षमस्व देवयानी देवयानीमुनिं तत्रो वाचक्रोधसमन्विता नाकं यामि पितः पुर्यां देहत्यागं करोमि वै ततः पुत्रीं स्वयं काव्य उचेतां शोकसङ्कुलः किमिच्छसि वद त्वम् उपायं तं करोम्यहम् ततस्तं देवयानी सौवाचक्रोधसमन्विता सखीभिः सखि दासि शर्मिष्ठा मे भवेद्यदि यत्र दास्यसि तादतत्रेयं सह गा भवेद तदाहं नगरे यामि हृष्टा दैत्याधिपस्य च चा। उवाच काव्यो दैत्ये सन्तं पुत्री वत्सलस्ततः तदेदि दैत्यराजस्य गृहे काव्यं समानयत। काव्येन नाखुषायैव ना दत्तपुत्री विधानतः तत्रदासी दासीस्वभावेन शर्मिष्ठ प्रयौ विधे कदाचित्तत्र शर्मिष्ठा भवधृतायुधा स्वयं राजानं वाडिकामध्ये उवाच विनयान्विता सख्या मे देवयान्या यदा पतिस्तदा त्वमेव मनसावृतः। ऋतुयुक्तां स्त्रियं स्वामिन् भज त्वं भक्तिसंयुतां तथेति नाघुषेणैव वृदा स गुप्तभावतः देवयान्या चरित्रं न तस्या ज्ञातं प्रजापते गर्भयुक्तां विदित्वादां सापप्रच्छ मुनेः सुता पश्य वीर्यं त्वया देवी धृतमेव अधुना लाञ्छनं दैत्यराजस्य प्राप्तं किम् दैवयोगदः शर्मिष्ठा तां जगादाध न कृतं लाञ्छनं मया ब्राह्मणस्य महद्वीर्यं गृहीतं गुप्ततः सखी तस्यां पुत्रा समुत्पन्नाश्रयो देवसमा बभूः राज्ञा सम्मानिता नित्यं वाडिकायां विशेषतः कदाचिद्देवयानी तत्र पुत्राय पितरं प्राकुरादराद तच्छ्रुत्वा क्षुपितात्यन्तं गृहं ययौ पितुस्तां सान्त्वयामास यया देर्विनयान्वितः न शशाकसराजर्षिस्तां स्वगेहे भयाकुलः आनेतुं सा तथा काव्यं जगाद रुदधीभृशं शुक्रेण चापिदो राजा जरायुक्तो नाहं श्वशुरतृप्तोऽस्मि कामभोगेभ्य एव च जराग्नम् एवदोपायं तं करिष्यामि यत्नदः देवयानीं विनान्यां स्त्रीं न स्पृशामि कदाचन ततस्तमुशनाप्रीद उवाच वचनं हिदम् तव पुत्रमहाभागयौवनास्ता भवीये जरान्तत्र विनिक्षिप्य गृहाणनृपयौवनम् त्वदाज्ञया जराम् पुत्रो ग्रहीष्यति कुरुश्वतम् राजानं मुख्यभावम् त्वं न दोषस्तत्र ते भवेद तथेदि देवयानीं दे सङ्गृह्य स्वनगरं ज्येष्ठान् पुत्रान् ययाचे स राजर्षिर्यौवनं ददः न जरां जगृहुस्तस्य सर्वे ते मूर्खभावतः ततः पूरुं स राजर्षिर्ययाचे स शुक्रस्य वरदानेन दोषः तस्य वै भुक्त्वा भोगाननेकांश यया ययाधिस्तोषिद्वहासा सर्वान्शेषद तीर्थी जगामासौ नानूपा सर्वकोशं द्रव्यम भूषणादिगरा ददौ सब्राह्मणेभ्यनशीलो तथा मृत्पात्रायर्गृहकार्येषु चरन्तं गालवो मुनिः तमायययौ यया चे वैराजानं खेदसंयुधः गुरोश्च दक्षिणार्थं मे देह्यश्वान् श्यामकर्णकान् सहस्रसङ्ख्यायुक्तास्त्वं श्रेष्ठः सकलभूभुजां माधवीं स्वाम् ददौ तस्मै ततः कन्यां महीपतिः तया तस्य मुनेः कार्यं कृतं सर्वं प्रजापते ततः स राजशार्दूलोजरां सङ्गृह्य यौवनं पूरवेदात् पुनः सद्यस्तं दिशि दक्षिणपूर्वस्यां तुर्वस्सुं पुत्रमादिशद दक्षिणा पश्चिमायां स यदुं ज्येष्ठं न्ययोजयत् प्रतीत्यामुत्तरायां सदृह्यं चानुमयोजयत् तैरीयं पृथिवी सर्वधर्मदः परिपालिता सर्वत्र सार्वभौमेन पूरुस्तत्र रराज धर्मयुक्तो विनीतात्मा सत्यसन्धप्रतापवान् तदो वनं ययौ ततापतप उत्तमम् अन्धे जगामत्स्वर्गं स नानाभोगप्रदं परं तत्र सर्वानधिक्रम्य बुभुजे भोगमुत्तमं न मत्समस्तः स्वर्गेषु पुण्यभोगकरः यदि गर्वेण संयुक्तमिन्द्रस्तं प्रजगादशः त्वया राजन्महत्पुण्यं कीदृशं प्रकृतं वद उवाच नरशार्दूलस्ततस्तं मोहसंयुधः न संख्या विद्यधे दे देव मम पुण्यस्य देव स्वर्गेषु ये स्थि नमे मे कलां च पुण्यस्य लभन्ते देवनायक तस्य तद्वचनं श्रुत्वा तमिन्द्रप्रत्युवाचः न जानासि महाराज येषां पुण्यप्रभावकं सर्वानिमां स्तिरस्कृत्यत्वं प्रमोहसमन्वितः स्वप्रशंसां तथा पारं पुण्यं वदसि चाद्य तेनते ते पुण्यमुग्रं तत्सर्वं नष्टं नराधिप प्रपतत्वमहि पृष्ठे पुनः पुण्यं समाचर तदः पपादभूपृष्ठे ययादिर्दुःखसंयुधः तं पतन्तं च दौहित्रा ददृश्युशिभिमुख्यकाः मादामहं च विज्ञाय ददुः पुण्यं पुनः तेन स्वर्गस्थितो राजा मुमोदे देववत्स्वयं ततस्तं नारदो योगी जगादकरुणायुधः त्वया विघ्नो महाराजप्राप्तः पुण्यविनाशकृत विघ्नेशं भज राज्यं त्वमन्ते स्वानन्दकस्तदः भविष्यसि न सन्देहो नो चेद्भूमौपदिष्यसि ततस्तेन गणेशस्य मन्त्रो दत्तो दशाक्षरः तं जजाप ययातिश्च या गणेशध्यानतत्परः पुण्यक्षयेश राजेन्द्रशुक्लगत्या प्रजापदे गणेशं प्रययौभक्त्या गणपत्यो महा महायशाः ययाते सरिदम् पुण्यं सङ्क्षेपेण निरूपितम् शृण्वदे कामदम् पूर्णं भविष्यदि न संशयः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले तृतीय खंडे महोदरचरिदेय आदिचरत नामकशतमोध्याय ओम